श्रीमन्नारायणीयम् दशकं त्रि मीटर शिखरिणि पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः स्मरन्दो रूपंते ते वरदकथयन्दो गुणकथाः ये भक्तास्त्वयि खलु रमन्दे परममूनहं धन्यान्मन्ये तमधिगतसर्वाभिलषितान् गद गदक्लिष्टं कष्टं तव चरणसेवा रसभरेप्यना चित्तम् चित्तं वद विष्णो कुरुदयाम् भवत्पादाम्बोजस्मरणरसिको नाम निवहानहं गायं गायम् कुहजन विभस्यामि विजने कृपा ते जादा चेत् किमिव न हि लभ्यं तनुभृतां मदीयक्लेशौखप्रशमनदशाम कियदि न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्तास् सुखगतिमसक्ता विदधते मुनिप्रौठारूठा जगति खलु भोजस्मरण विरुजो नारदमुखाः चरन्दीशस्वैरं सदतपरिनिर्भाध परजित्सदानन्दाद्वैतप्रसर परिमग्नाक् किमपरम् भवद्भक्ति स्वीता भवतु मम सैव प्रशमये दशेषक्लेशौखम् न खलु हृदि सन्देहकणिका न चेद्व्यासस्योक्तिस्तवचवचनं नैगमवचो भवेन्मिद्या रध्या पुरुषवचनप्रायमखिलम् भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरत्सात् किमप्यारूढा चेदखिल परितापप्रशमनि पुनश्चान्दे स्वान्दे विमलपरिबोधोदय मिलन्महानन्दाद्वैतं दिशदि किमधप्रार्थ्यमपरम् विधूय क्लेशान्मे कुरुचरणयुग्मं धृतरस्सं भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ भवन्मूर्त्यालोके नयनमथते पादतुलसी परिख्राणे ख्राणं श्रवणमपि चारुचरिते प्रभूताधिव्याधिप्रसभचलिदे मामकहृदि त्वदीयं तद्रूपं परमसुखचिद्रूपमुदयाद उदञ्जद्रोमाञ्चो गलितबहु हर्षाश्रो निवहो यथा विस्मर्यासं दुरुपशमपीडा परिभवान् मरुद्वेशत्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेहि सोऽहम् सुबहु परितप्ये च किमिदम् अकीर्तिस्ते मा भूद्वरदगदभारं प्रशमयन् भवद्भक्तोसं झडिति कुरु मां किमुक्तायर्भूयोऽभिष्टव हि करुणा यावदुदियादहं तावद्देव प्रहिदविविधार्थप्रदपितः पुरक्लृप्ते पादे वरद तव नेष्यामि दिवसान्यथा शक्तिव्यक्तं नदि विरचयन् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द